<Sus> मिताग्निमिडस्पदे अश्विनेन्द्रकुं सरस्वती अजोधूम्रो दो न गोधूमेश्वलैर्भेजम् मधुशैर्न तेजलन्द्रियम् पर्य परिस्रुता कृतम् मधु ब्रियन्द्वार्यस्य होतरिहि होताय कर्तनो न हो पात्सरस्वती अविर्मेषो अश्विनेन्द्राय वीर्यम् मदरेर्पवाकाभिर्भेडजन्तोक्ष्मभिः परश्व परिश्वता कृतम् मत गृहन्द्वार्यस्य होतर्यज होताय क्षन्दनाशकम् छन्दनग्नहुम् पतिविन्दुरायभेडजम् मेढस्वरस्वजे भिडग रथो न चन्द्रश्विनोहा पपा इन्द्रस्य वीर्यम् मदरेर्पपाकाभिर्भेडजन्तोक्ष्मभिः पयः सोमपरिष्कृतम् मधु वियन्द्वार्यस्य होतविज होधायकृरः सरस्वती इन्द्रम् बलेन वर्धयन् दवे अर्शिरेन्द्रायुवीर्यम् यवे कर्कंसुभिः पृथुराजेर्नमासरम् पयः सोमपरिष्कृतम् मथु वियन्द्वार्यस्य होतविज बोधाय क्षद्वः सुष्ठले मोर्णम् मृदा बिरन्नादत्या विरजास्मिना स्मासुमती बिरग्भेनः सरस्वती बिहग्दुह इन्द्राय भेणजम् परिश्रमपरिस्रुदाकृतम् मधु बिरन्धार्यस्य होदभिज होदाय क्षद्दुरोदिषः दुहे कामान् सरस्वती अश्विनेन्द्राय भेडजम् शुक्रणज्योतिरिन्द्रियम् पयस्वामः परिष्दाहृतम् अथ वियन्ताजस्य होतविज होदायक्षेतसो क्रन्दिवाः अश्विना सञ्जानाने समुञ्जाते सरस्वत्याहृदा पयःसामः परिष्कृदाहृतम् अथ ययन्तार्यस्य होतविज होतायक्षब्दय्या होताभिरजाश्विनाः शोषकुन्दरस्वदे श्रीसेन हरेन्द्रियम् हयस्वामःस्य होतविज होतायक्षत्तिस्रो देवेऽन्नपेणजम् हरे स्त्रिराजवपदः ओपमिन्द्रे हिरण्यम् अश्विनेडानभारते वाचाधरस्पते मायधरेन्द्रियम् पयः सावः परिश्रुताकृतम् मधुन्द्वाराज्यस्य होध होधायक्षत्वष्टारविन्द्रमश्विनाः ओजोनजोतिरिन्द्रियम् मृगोधन यजस्वयाभेरम् श्रियाणमाधरम् पयसावः परिश्रुता कृतम् मधु विजन्द्वाजस्य होदर्यज होदायक्षद्वनस्पतिम् शमितारपुम्शतकृतुम् देवन्नमन्यगुण्डराजानम् व्याघ्रन्नमसाश्विनाभामम् हरस्पतेडग इन्द्राय गुहैन्द्रियम् पयः स्वपरिश्रुताहृतम् मधु विजन्द्वाजस्य होदर्यज होदाय कले स्वाहाजस्य श्लोकानाः स्वाहामेतसाम् पृथग स्वाहाभ्याः स्वाहा मेढकम् सरस्पद्ये स्वाहऋणपरेन्द्रायजेन्द्रियम् स्वाहाग्निन्नभेदजम् स्वाहान्द्रियम् स्वाहेन्द्रकम् सुत्रामानकम् सवितारम् वर्णम् विरजाम् स्वाहा वनस्पतिम् प्रियम् पातो न स्वाहा देवागुण्जपान स्वाहाग्निगोत्रा त्रिभाणोग्निर्भेडजम् पयः सोमपरिष्कृता घृतम् मधो वियन्ताज्ञस्य होदर्जना भवता यक्षदश्विना परस्पतिन्द्रकम् सुत्रामाणम् इमे सोमाः सुरामाः छागैर्न मेधैरभैश्रिताः शष्पैर्णतोमभिः नायेर्न हस्पन्दः मरामासरेण परिष्कृताः शुक्राः पविष्वन्तो अश्विना नेन्द्रः सुत्रामावृत्रः इषन्तागम् सौम्यम् मथु इळन्त मदन्त मयन्त सामम् तप्तो खण्ट् सुः सरस्पदे सोमगम् शुक्रमिहेन्द्रियम् तलोपाभिडजासुते अश्विनो भाधरस्पते मध्वारजागुंसेन्द्रियम् इन्द्राय मथिनिर्वहाने इन्द्रायन्द्रन्सरस्वती आयुक्त्वार्यम्नाविषम्भकम् अश्विनानुमुदयस्रुतम् सोमगुम् शुक्रम् परिस्रुताः सरस्पतीभरहिन्द्राय मा कवश्याणव्यजस्पतेः अश्रुभ्यान्नरोदिषः इन्दुरौ कामा सरस्पती नक्तमश्विना दिवेन्द्रकम् सागरेन्द्रियेः सञ्जाताने सुपेशसा समञ्जाते धनस्पत्या पातम् न अश्विनादिवा कालिनक्तकम् धनस्पति देव्याहोदाराभिर पातमिन्द्रकम् सजा विश्वस्त्रेधापति अश्विना भारतीता सोमम् इन्द्राय तुजन्नः सरस्वतीपष्टाय शश्रियम् रूपकम्पतिः मानः परिस्तुताः एमश्रिभ्याम् मधु द्वतिभिन्न सोममश्विना मातरेण परिष्कृता समधातारस्पत्या स्वाहेन्द्रे कृतम् मधु अश्विना अविरिन्द्रियम् नमुचेर्भिस्पति आशुक्लमासुरात्मसु मघमिन्द्रायज्यरे यमश्विनातरस्पदी अविरेन्द्रमवर्धयन् सिपेदवलम् मघम् नमुचा वा सुरे अविन्द्रम् प्रशानाभ्यनौषधा भगया यज्ञमिन्द्रियम् यथो सविता वरुणबलः सत्रामाहविष्मतिः यजमानायसश्च सवितावरुणा तथच यजमानायतासुचेः आदत्तनमुचे रसो सुत्रामा बलमिन्द्रियम् वरुणः क्षत्रमिन्द्रियम् भगेण सविताश्रियम् सुत्रामायशसा बलम् अश्विनागोऽभिरिन्द्रियम् अश्मेभिर्वीर्यम्बरम् अविजयन्द्रकम् सरस्वती यजमानमवर्धयन् सत्या सुपेश हिरण्यवर्तने नरस्पते हविष्पदे इन्द्रकर्मसुनावता साभिसुकर्मणा सादुखा सरस्पती समर्त्रः सदो इन्द्रादिदशरिन्द्रियम् एवम् बलिः सरस्वती देवमिन्द्रे अश्विनाः ते जौनचक्षुरक्षाः नैरुषादधुरिन्द्रियम् वसुवने वसुभेयस्थलियन्तु यज देव्ये द्वारो अश्विनाः विरजेन्द्रयधरस्पदे प्राणन्न वेद्यन्ते द्वारो दधुरिन्द्रियम् वसुवने वसुधेयस्थलियन्तु यज देवी कुषासा शाभ्याः द्रशिन्द्रियम् वसुपने वसुधेयस्य विजन्त्येवीज्योष्ट्रे अश्विनाः सुत्रामेन्द्रियसृस्वती सोकर्णकर्णयोयुषः योष्टेयेभ्यान्द्रसरेन्द्रियम् वसुवने वसुधेयस्य वियन्त्रयज देवी भोज्याहुते वसुवने वसुधेयस्य वियन्द्वेज देवादेवानाम् मेडिराः गोदा राविन्द्रमश्विनाः वृषत्कारे सरस्वतीयम् भोदर्भ्याम् दशरिन्द्रियम् वसुवने वसुधेयस्य वियन्द्वेज देवेस्तिस्रस्तिस्रो देवेः सरस्वत्यश्विना भारतीडाः सूषण्णमध्ययनाभ्याः इन्द्रायदशरिन्द्रियम् वसुवने वुधेयसि रमीयन्तेज देवेन्द्रवनराशगुन्तः कृपदूतः सरस्वत्याश्रुभ्या मीयते रथः तेतोनरूपमृतम् इन्द्राय त्रोष्टादृशदिन्द्रियाणि वसुवने वुधेयस्य रमीयन्तेज देव इन्द्रोवनस्पतिः हिरण्यपन्माश्रुभ्याः सरस्वत्याश्वलः इन्द्राय वच्यते मधो वो जोनज्योतिमजभोनभामम् परस्पचर्मदृशरिन्द्रियाणि वसुमने वृधेयस्य विजन्त्रयज एवम् परिहर्वारिदीना अध्वने स्त्रीर्णमर्षुभ्याः ओन्नम् दासरस्मृत्याः श्योनमिन्द्रदेशनः ईशारीमन्य्राजानम् बरिहराधृषरिन्द्रियाम् वसुमेव सुधेयस्य विजन्तयज देवाग्निस्पष्टगते देवानियक्षद्यथायुधम् होदा राविन्द्रमश्विनाः वाचावाचकुन्दरस्पदे अग्निगुंसोमग्स्पृष्टकृते स्पृष्टहिन्द्रस्सुत्रावाचवितापरिणाभिषय इष्टो देवो वनस्पदे स्पृष्टा देवाद्य इष्टो अग्निरज्ञिणा होदाहोत्रे स्पृष्टकृते वसुवने वसुधेयस्य विजन्त्य अग्निमध्यहोदालोवणे च अयगम् सुदा यजमानः पचन्पक्तेः पचन्परोडाशान् गण्ढन् ग्रहान् वद्रान् अश्विभ्यान्शाघम् धरस्पत्या इन्द्रायन् सरस्वत्यै वेघविन्द्रायाश्विभ्याः भद्रणेन्द्राय रभश्विभ्याकुम् सरस्वत्ये सोपस्था अद्य देवो वरस्पतिरभव अश्विभ्याच्छागेन सरस्वत्या इन्द्राय परस्पत्यै मेघेणेन्द्रायाश्रुभ्याः इन्द्राय मेघेणाश्रुभ्या कुम् नरस्पत्यै पाक्षग्रस्तान्मे दस्तप्रतिमजदाग्रभेदः अवयवधन्तग्रहेः अपादामश्विना परस्मतेन्द्रः सुत्रामावृत्रः सोमान्सुराम्नः भोक्तामदाश्रौद्यमदा अरन् अवयवधन्ताम् घोषेः अयमुंसुतानः बहुभ्यः लङ्कतेभ्यः एष मे देवे शुभसुवार्यायक्षतैजे दे। ताया देवा देवादेवतान्यस्व आचरः स्म आचकुरस्वश्चहोदरसिभद्रवाच्याय प्रेषितो मानुषः सोक्तवाकाय सोक्ता ब्रूहि शस्ता हवा आनो अग्नेजिता पिता स्वामुभेक्तुंसा पिद संहम पिते हवामेसे हवा छन्ना भवन्तद्युपदे शुष्पते ये अग्निस्वार्ता ये नग्निस्वार्ताः अगुम्होमितः पितरः सोमन्यासः परे परे मृता सो भवन्तः अधिभ्रवन्तरे अवन्तस्मान् आन्याये दुग्धे युजमानाः करम्भम् वीरा न अपरे परे च तिरग्ने कव्यवाहनत्वमग्निः द्वितोजातवेदः मातले कव्यैः एतात्रवत्ते अत्राचेहमानाः होत्रामधस्तोमदष्टासो अर्कैः आग्नेयाभिसर्वान् सर्तेः कव्ये प्रतिभिद्धर्मसद्भिः अव्यवाहमदम् पुनप्रियम् अग्निम् धृजेण हविषासपर्यन् उपासरन्यव्यवाहम् वितृणाम् सः प्रजाम् वेलव देवम् समन्वतो क्षिरस्पदे स्वमिधानम् महद्विषः सुषमिच्छम् वरे अन्यम् अग्निमिन्द्रम् वयोधनम् नारित्रीम् छन्द इन्द्रियम् प्रिङ्गाम्बयोदथ वेत्वाद्यस्य होतव्यता यक्षच्छिव्रतम् ततोऽनपादमुद्भिदम् यङ्गर्भमलिजर्धसे शुचिमिन्द्रम् वयोधनम् उष्ण्यहन् छन्द इन्द्रियम् नित्यवाङ्गाम् वयोतथत् वेत्त्वाद्यस्य होतर्यज भोतायक्षपीडेन्यम् पीडितम् वृत्रहन्तमम् पिताभिरेन्द्रियम् सह स्वामीन्द्रम् व योधम् अनष्टु सञ्छन्देन्द्रियम् प्रवत्सङ्गाम् बृहती <San> चन्द इन्द्रियम् पञ्चालिङ्गाम् वयोधर वेत्त्वार्यस्य होदर्यज भोतायक्षद्गजस्पतेः स्वप्रायणार्तावृतः द्वारो देवेरिरन्ययेः ब्रह्मान इन्द्रम् वयोधरम् पङ्कम् छन्दहेन्द्रियम् दव्यवाहङ्गाम् वयोधर वेत्वार्यस्य होदर्यज पोतायक्षत्सुपेसे सुशिलुपे बृहति गुभे ोशासारदर्शते विश्वमिन्द्रम् वयोधसम् प्रष्टुभञ्छन्देन्द्रियम् अष्टवाहङ्गाम् वयोदथज वेत्वाजस्य होदर्यज होदा यक्षत्प्रदेतसा देवानामुत्तमैषः होदा राधेव्या कवि शैलेन्द्रम् व यौसम् जगदे छन्द इहेन्द्रियम् अनद्वाहङ्गाम् व योदथज भोतायक्षद्वेषपतेः तिस्रोदेवैर्हि भारतेऽर्बृहतेर्महेः पतिमिन्द्रम् वयोधसम् विराजनछन्दविहेन्द्रियम् धेनुङ्गान्नवयोतस वेत्वाज्यहोदी होतायक्षत्सुरेतसम् पुष्टानम् पुष्टिवर्धनम् रूपाणि बिभ्रदम् पृथक् पुष्टिमिन्द्रम् वयोधसम् विरोधन्दहेन्द्रियम् कुक्षानङ्गान्नवयोधर वेत्त्वार्जस्य होदर्यज होतायक्षच्छदक्रदम् हिरण्यपन्नमुक्थिनम् रजनाम् बिभ्रदम् वशम् भगविन्द्रम् वयोधसम्भन्द्रहेन्द्रियम् वशाम्यहनङ्गान्नवयोधर हेत्वार्जस्य होदर्यज होतायक्षत्साहाम् प्रथय वरुणम् भेजम् कविम् न्द्रम् वयोधरम् अतिच्छन्दनम् छन्द्रियम् वयोदश च वेत्त्वाग्स्य होतर्य समिध्वाज्ञः समिधापरे अन्यः गायत्रीछन्द इन्द्रियम् प्रविद्गोर्वयोदशः तनो नपाच्छुचव्रदः तनोपाच्यसरस्मति उष्णिच्छन्द्रियम् सोमो देवो अमर्त्यः अनष्टछन्द्रियम् बृत्सो गौरवयोदशः स्वपरिहरज्ञः पूषण्त्यः बृहती छन्द्रियम् पञ्चायुद्गौरवयोदशः दुरो देवेऽर्दिशो महेः ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्चन्देन्द्रियम् उषे यक्विशसा विश्वे देव अमर्त्याः प्रष्टुच्छन्देन्द्रियम् अष्टवाद्गौर्वयोदशः देव्याहोताराभिरजा इन्द्रेण जगतिच्छन्दहेन्द्रियम् अनद्वाङ्गौर्वयोदशः तिस्रयिणादनस्पते भारते मरतो विशः दयाच्छन्दहेन्द्रियम् धेनुर्गौर्ववयोदशः अष्टादलेपोद्भुतः इन्द्राज्ञे पुष्ट्यमथना दिवाच्छन्दहेन्द्रियम् वृक्षागौर्नवयोदशः समिता नावनस्पतिः समिता कृसुबन्धगम् कपुक्षन्दहेन्द्रियम् वशा मेहद्गौर्नवयोदसः स्वाहायज्ञम् वरुणः सुक्षत्रोभेडजम् करते अविच्छन्दाच्छन्द इन्द्रियम् प्रभवगौर्मयोदशः वसन्तेन त्वदा देवाः बसवस्तृताः तेजसा भीष्मेण देवा ऋतुनाः रुद्रापञ्चदशे स्तुतम् बृहदायशपलम् हविरिन्द्रेव योधसः वर्षाभिरिऋतुना नित्याः सोमे सप्तदशे स्तुतम् वैरूपेण विशौजसा हवेन्द्रेव योदसः शारदे देवाः एकविंशदवस्तुतम् वैराजेन श्रिया श्रियम् हेमन्ते नक्तुना देवाः मरुतस्त्रिनले स्तुतम् बलेन शक्वरेः सह अविरिन्द्रेव योधसः श्रीशिरेणत्तुना देवाः त्रयस्त्रिगुंसे सत्येन देवतीयेः क्षत्रम् अविरिन्द्रेव योधसुः एवम् बरिहरिन्द्रम् व योधसम् देवम् देवो वर्धयत् गायत्रियाच्छन्तजेन्द्रियम् ते दयीन्द्रेव योधषत् वसुमने मधुधेयश्च द्वारो देवमिन्द्रम् वयोषधम् देवेभेमो वर्धयन् पुष्टिः देवी देवम् वयोषदम् उषेन्द्रमवर्धता अनुष्टुभाच्छन्दजेन्द्रियम् वाचमिन्द्रेव देवी देवीज्योष्टे देवमिन्द्रम् वयोधतम् देवी देवमवर्धदा बृहत्या छन्दजेन्द्रियम् श्रोत्रमिन्द्रेव योधस वसुवने वसुधेयस्तवीताञया देवी भोज्याहुदी देवमिन्द्रम् वयोधतम् देवी देवमवर्धदा पङ्क्त्याजेन्द्रियम् शुक्रमिन्द्रेव योधस वसुवने वसुधेयस्तवीताञया देवादेवमिन्द्रम् वयोषसम् देवादेवमार्थताम् विष्णुभाच्छन्द्रजयेन्द्रियाम् तुजमेन्द्रैव योतसद पुसुवनेव दुधेयस्तवेताय देवेऽस्तिस्रस्तिस्रो देवेऽर्पयोधसम् हरिन्द्रमवर्धयन् जगत्या छन्द्रजयेन्द्रियम् परमिन्द्रैव योतथ वसुपनेव दुधेयस्तमियन्द्रियज देवोदराशपुंसो देवमिन्द्रम् व योधनम् देवो देवमवर्धयते विराजान्दजयन्द्रियम् हेदवीन्द्रेव योगषे वसुवने वृधेयस्तु देवो वनस्पतिदेवमिन्द्रम् व योधनम् देवो देवमवर्धयते विवदाच्छन्दजयेन हगवीन्द्रेव योधसदे वसुभने वृधेयस्तु वेद्वीज देवम् बरिर्वारिजेनाम् देवमिन्द्रम् व देवम् देवमवर्जयत वकुफा क्षन्दसेन्द्रियम् वसुपदेवो अग्निस्पष्टमिन्द्रम् योधसम् देवो देवमवर्धयत अनिक्षन्दसा क्षन्दसेन्द्रियम् क्षत्रमिन्द्रेव योधस वसुपदेव दुधेयस्य वे द्विजा ओ प्रभत् सोमो भवति ब्रह्मवत्रै प्रभ ब्रह्मवर्तसमेवावृन्धे राज्ञष्टम् वा आज्ञष्ट्रह्मवर्तधमेवावरुन्धेतरगुञा भवते ब्रह्मवर्चनम् वैरसन्तरम् ब्रह्मवर्तसमेवावरुन्धे परिष्वी होता भवते अरुणामिर्मिरस्तु शुक्रः एतद्वये ब्रह्मवर्चसस्य रूपम् रूपेणैव ब्रह्मवर्चसमवरुन्धे देवानां बृहस्पतिरकामेतदेवानाम् पुरोषाम् गच्छेमिति एतम् बृहस्पतिसमपश्य अमाहरत् येना यजतः ततोऽपितदेवानाम् पुरोषामगच्छत् यः पुरोषाकामः स्यात् स बृहस्पतिसवेन यजेता पुरोषामेव गच्छति तस्य प्रातः वने सन्नेषु नादाशपुंसेषु एकादशदक्षिणानीयन्ते एकादशमार्ध्यन्ति नेधवने धन्येषु नाराशपुंसेषु एकादशत्रयेषु वने धन्येषु नाराशपुंसेषु त्रयस्किकंषत्सम्पद्यन्ते त्रयस्त्रिंशद्वै देवताः देवता एवावरुन्धे अश्वस्तिरुस्त्रिंशः प्राजापत्योपाश्वः प्रजापतिस्तिरस्त्रिंशो देवतानाम् यावदी देवदेवताः ता एवावरुन्धे कृष्णाजिनेऽभिषिञ्चते ब्रह्मणो वा एतद्रूपम् यत्कृष्णाजिनम् ब्रह्म वर्तते नैवेनकम् समर्थयते आद्ये नाभिषिञ्चते तेजो वा आज्यम् तेजयवास्मिन् तथा ते यदा भवति अग्निमुखा ह्यद्धिः अथ यत्पौष्णः प्रथमा यथा मित्रः अथयत्त्वाष्टः कष्टाहिपाणि विकरोति नर्वरुणत्वायवारुणः असौयेवकश्च साम् श्रूयते स हि वारुणः असयद्वैयेष्वदेवः वैश्वदेवो हि वैश्यः असयम् मारुतः मारुतो हि वैश्यः सप्तेतानि हवेदृषि भवन्ति शब्दकनावे मरुतः वृष्टिः पष्टौ हेमारुत्यालभ्यते ै मरुदः विषगेवेतन्मध्यतोऽभिडिच्यते तस्मात्त्वा एष विषःप्रियः विषोभिमध्यतोऽभिष्यते सहि प्रजनयिता रद्धाभिडिञ्चते ओर्ग्वः अन्नाद्यन्दे ओर्देवेनमन्नाग्नेन समर्थयते यदा ज्ञेयो भवति आग्नेयो वे ब्राह्मणः अथयत्सौम्यः सौम्यो हि ब्राह्मणः प्रथवा एव सा मित्रः अथयद्वारिहस्पत्यः एतद्वैर्ब्राह्मणस्य वाक्पदीयम् अथयः आज्ञेयो वैब्राह्मणः यदा सङ्गच्छेते अथ वेर्यावत्तरो भवते अथयत्सारस्पदः एतद्धिप्रत्यक्षम् ब्राह्मणस्य वाक्पदीयम् निर्वणत्वा एव वा रुणः असूयेव निश्चसा रुणः अथयद्या वा पृथिव्यः इन्द्रावृत्रायुदयच्छा वा पृथगी नान्वपण्येताम्ब मन्येताम् वज्रस्य वा एषोऽनुनाय हनुमदवज्रस्तो या कालि अष्टावेदानि हवेगुषि भवन्ति अष्टाक्षरा गायत्री गायत्री गायत्र्यैव ब्रह्म कथमवबन्धे हिरण्येन हृदमत्पुनादे तेजस एव ऋते कृष्णाजिनेऽभिषिञ्चते ब्रह्मणोक्सामयो रूपम् यत्कृष्णाजिनम् ब्रह्मण्त्सामयोजिञ्चते धृणाभिषिञ्चते तथा वेर्यावत्तला भवति न वै सोमेण सोमस्य समास्ते हतो अभिषुताक्येशः ौमेकम् सूरवशामानफले सोमवैरेतोधाः एतगेव तत्प्रधारे सौम्यच्चाभिचिञ्चते रेतोधा क्लेशः रेतः सोमः एतगेवास्मिन् प्रधाने यत्किञ्च राजसूर्यमृहसोमम् तत्सर्वम् भवति अशाषय्यत्सपदना सुपप्रियम् सुपर्णामस्वाम् प्रजनस्य गोपाम् भरेजागम् सुम् सुश्रवसम् ये तन्त्वामनुमदेव सोमा योऽपि सोमेन सूयते सदेव समः यः पशुना सूयते सदेव समः वैत्या सूयते समुनश्य सवः एतम् वे दृथय देवाः प्रायच्छन् ततोऽपि सोम्यारण्यानाम् पशूनामसूयत ज्ञापतेः कीटेश्च प्रजावाचम् वदन्ति साकम् सर्वा साकम् वेद नाराशज्ञस्य ना चाभिषिञ्चके मनुष्या वेन राशगुंसः निर्धत्यवावेतत् अथाभिषिञ्चके यत्किञ्चराशसूयमनुत्तरवेदीकम् तत्सर्वम् भवति येनेकम् चासनम् तदुः अश्वादाकम् सहस्तुतिः विमलज्ञेमस्वः दे, एतगो सवः विहत्सामने कन्मरथन्तरम् भवति यौवैवाजमेयःसवः यौराजसौयः सवरुणसवः प्रजातिस्वाराजम्बरमेष्ठी स्वाराज्यम् गौरेव गौरिव भवते यौजेन एवम् वेद ृहदन्तरे भवनः तद्धिस्वाराज्यम् अभियुञ्जने तद्ध्यस्वारम् अनुद्धते यम् वान्तरम् असो बृहदे अनयोमनन्तरिहीनमभियुञ्जने वशस्तो वा एषः सर्वः एवज्जातः सहसा वृद्धः क्षत्राणाम् क्षत्रभृत्तमो वयोः महान् महित्वेतस्तभावः क्षत्रे राष्ट्रे चागिः स्वामदवेष्ठिनस्वारार्भिञ्जामेत्याह स्वाराै सा नहागन्मत्यदानम् विधाना व्यानाजन्येन्दुभावायतायाम् अश्वस्य क्रन्धे पुरुषस्य मायौ इन्द्रय्या देवे शुभगा जानहागमत्यदानम् विदाना हस्तिरण्येशलस्वेषु पुरुषेषुकोषो इन्द्रय्यादेवे शुभगा जानहागम्वत्यदादम् विदानस्य माले जण्डे अमरणस्य सुष्मे इन्द्रेभगाय राज विराजे सम्राटजस्वराजे इन्द्रायत्वा तेजस्पदे तेजस्वन्द्रश्रेणामि इन्द्रायत्तौजस्पदवोजस्पन्दग्रश्रेणामि इन्द्रायत्वापयस्पदे अपयस्पन्दज्ञश्रेणामि इन्द्रायत्वायुष्पदायुष्पन्दग्रश्रेणामि तेजाधे तत्र प्रेच्छामि तेजस्वदस्तु मेमुखम् तेजस्वच्छिरास्तु मे तेजस्वान् विश्वः प्रत्यङ्ग तेजसा अदङ्गवृद्धिमा वोजोहि तत्र प्रेक्षामि ओजस्वरस्तु मेमुखम् ओजस्वच्छिरास्तु मे ओजस्वान्विश्वरः प्रत्यङ्गजथा आदङ्गवृद्धिमा अयोहि तत्र प्रेच्छामि अयस्वदस्तु मेमुखम् अयस्तक्षिरास्तु मे अयस्मान् विश्वदप्रत्याङ्ग अयसादम्ब्यवृद्धिमा आयुषे तत्र प्रयच्छामि आयुष्मदस्तु मे मुखम् आयुष्मच्छिरास्तु मे आयुष्मान् विश्वदप्रत्याङ्ग आयुषादम्ब्यवृद्धिमा इममग्नायुषे एव सोमराजन् विश्वेदेवाजला सद आयुरषविश्वायुरसे सर्वायुरसिमायुरसे मनो यतः क्षरन्ति अभिषिञ्चा निवर्तता समुद्रयवासिबम्भनाः सोमयिवास्रदाभ्यः अग्रिमविश्वप्रत्यङ्गे सूर्ययव ज्योतिरा तमहमस्माहामुष्यायणाय तेजसे ब्रह्मवज्जलाय गृह्णामि अपाय ओर्मोरसः तमहमस्माहामुष्यायनाय ओजसे दैर्घाय गृह्णामि अपाय मध्ययोरसः तमहमस्माहामुष्यायणाय वष्यै प्रजनाय गृह्णामि अपायो यज्ञयोरसः तमहमस्माहामुष्यायनाय आविषे दीर्घायुत्वाय गृह्णामि अभित्रेः वीरयस्व उग्रश्चर्तासपत्नः आदिष्ठमित्रवर्धनः तुभ्यम् देवाभिब्रवन् अङ्कोऽ्यङ्काभिरादिष्ठवृत्तः आदिष्ठन्तम् परिविश्वे अभूषन्मसानश्चरनिस्वरोचाः महत्तरस्यासुरस्य नाम आविश्वमृतास्थौ अवत्त्वेन्द्रमलक्म गृहस्पतिः अनसो अन्वद्य अनुप्त्वा विश्वे देवावन्द्वो अनुसप्तराजानो यूताभियुक्ताः अनुप्त्वा मित्रावरुणा विभावदम् अनुवा पृथिवी विश्वजम्भो योऽभिरणत्वावद चन्द्रमा नक्षत्रे रणत्वावद योश्चत्वा पृथिवी च प्रचेतसा प्रजापति प्रजासृजता आस्मात् सृष्टा पराजीरायन् स एतम् प्रजापतिलोधनमपश्य सोऽन्नतिष्ठत् सान्नाद्यत्वा प्रजापतिम् प्रजा उपावर्तन्त अन्नमेवेणम् भवतम् पश्यन्ते प्रजा उपावर्तन्ते एतेन हिलते यौजेन एवम् वेद सर्वाण्यन्नानि भवन्ति सर्वे पुरुषाः सर्वाण्येवान्नान्यवरुन्धे सर्वान् पुरुषान् राजिविराजसेत्याह स्वाराज्यमेवैनम् गमयते यद्धिरण्यम् ददाति तेजस्तेनावरुन्धे यत् सर्वाम् वीर्यन्तेन यदष्टाः पुष्ट्यन्तेन यत्कमण्डलम् आयुष्टेन यद्धिरण्यमाबद्धादि ज्योगर्वै योजरेवास्मिन् दधाति अशोते यो बे हिरण्यम् ते जरेवात्मन्धत्ते यतो धनम् प्राश्नाति एतदेव सर्वमवरुध्य तस्मिन्ने कथाण्या कार्यः यत्रा आह्मन एव रोहिणी तस्मादेव अशोकस्मेवेन पुंसमानाहम् करोति उद्यता सौर्येण कार्यः उद्यन्तम् वा एतम् सर्वा जाः प्रतिनन्दन्ति दुदृक्षया दर्शनीया भवति एवम् वेदा रम्भवादिना वदन्ति अवेदृधा इति यदर्भवम् जेदयः पवयते तत्सिवा वैदे तन्ना वैदे त्रिभिः पवयते ते इमे लोकाः येभिरेवैनम् लोदयः पवयते अथो अपाम् वा एतत्ते जो वर्चः यद्दर्भाः यद्दर्भवञ्चेदैः पवयदे अपामेवैरन्ते तथा वर्चाभियुञ्जले प्रजापदकामेत बहवर्भूयान्स्यामिदे स एवम् प्रञ्चसा तदीयमपश्यते अमाहरते तेन यदा तदवेदभहार्भूयानभव यः कामयेत बहवर्भूयान्स्यामिनि प्रपञ्चशारदीयेन यजेत बहोरेव भूयान् भवति मरुत्सोमो वा येदः मरुतो हि देवानाम् भूयिष्ठाः बहु भवति यजेतेन यजते यौजेन एवम् वेद प्रपञ्चशारदीयो भवति पञ्चवार्दवः संवत्सलः ऋतुष्वेव संवत्सरे अथवा पञ्चाहाक्षलापङ्क्तिः पान्तो यज्ञः यज्ञमेव वरुन्धे सप्तदशग्रस्तामानादयन्ते सप्तदश प्रजापतेः प्रजापतेनात्ये अगस्त्य मध्य उक्ष्णः प्रवोक्षते तानिन्द्रः दत्ता तयेन वज्रमुद्यत्याभ्यायन्त तानगस्त्यश्चेन्द्रश्च गया सुबीजेनासुमयधा तान् शान्तानु यत्कया सुबीजम् भवतिधान्ते तस्मादेकीन्द्रामावृता वृक्षाणस्त भवन्ति त्रयः प्रथमे हन्ना लभ्यन्ते एवम् द्वितीये एवम् तृतीये एवम् चतुर्थे पञ्चोक्तमे हन्ना लभ्यन्ते बहिरष्ठव्येदः वैरष्ठस्समानानाम् भवति यजे न यजे योजेनमेवम् वेद स्वाराज्यम्ब एतयज्ञः एतेन वा य गजा वा तान् तव स्वानराज्यमगच्छति स्वाराज्यम् स्वारा गच्छति एतेन यजदे युजेनमेवम् वेद मारुतो वा एष स्तोमः एतेन वै देवा देवानाम् भूयिष्ठा भवन् भूयिष्ठः समानानाम् भवति एतेन यजदे योजेनमेवम् वेद पञ्चशारदी यो वा आपन्गमात् पुरुडाधन्नम्ये योजेनेवम् वेद सप्तदशग्रस्तो मानादियन्ति सप्तदशप्रजापतिः प्रजापतेरेवनैति अस्याजनासो नमा मरित्राः अच्छो मासो अग्नयः पावकाः स्वीनेष्वात्रासोरन्यवः वायपोनसोमाः प्रजा नेत्रावरुणा प्रजादेवाग मृदम् बृहदे ्यस्पन्दमम् अस्मिनाविवदकम् श्रुतम् देव्यज्ञेषु जवृता मृदुनायज्ञवाहसा देवीरूपेतरदस्पर्थे अन्यान्या वत्समुपधापय दे। हन्यस्याम्भवजस्पथावान् शुक्रो अन्यस्यान्तजेभत्याः और्वापनम् च रजो भागेतौ <स्ट्रिया> विश्वान्यभुवनाभितष्टेतोन्यो विदश जायते पुनः त्रीणि शदाेशहस्रान्यज्ञम् त्रिपुंशच्च देवानवधासमर्यन् औक्षङ्खते दे राष्ट्रन् बर्हिरस्मै आदिध्वोदानन्यषादयन्त अग्निनाग्निः समेध्यते अभिर्गृह्युवा अव्यवाद्युक्वास्य अग्निर्देवानाञ्जरम् ऊलक्षकविक्रतुः देवो ेभिरागमले अग्निश्रिया मरुदा विश्वकृष्टयः आग्रमवहीमहे वयम् ते स्मारिणा ऋजः कलवस्तुतानवः मध्यमेव भगासो निमिष्ठा ततो नद्रा बुधवाहान्वस्य अग्ने वित्ताभ्यविदयजामः कीडे अग्निस्वसन्नमोऽभिः इहप्रसप्तो प्रभदेवालयद्भिः प्रदक्षिणम्भुदाकृष्पाद्याम् नवह्निभिः एव आदीनन्दवर्गिणे मित्रावरुणार्यमा रातयावाणध्वनम् विश्वेटामदियानाम् विश्वेशामतिशर्मानुषाणाम् आज्ञवानामवः श्रवणेको भवति विश्ववेधाः वे अग्ने पतिभ्यक्षमाणाः द्विश्रवति यज्ञिगादः नक्ता च रक्तलोके कृष्णम् च वर्णमरणम् च सन्धो त्वामग्नानित्याम् त्वाम् चित्त्वागुश्रे चक्रिलेधरे त्वागुङ्ग्राधिषाचोध्वरे देवाहुदम् यज्ञस्य साधनम् अग्ने भवतारम् वनुष्पद्देवधीमहि प्रचेतसम् वीरम् दोनमर्त्यम् त्रेष्ठाः रेरसा युज्यमाना या हि आर्यम् नीतो नोच्च विभास्यन्थो अभिसृष्टो अस्मे इन्द्रस्वाः देवादेवदाय कस्य विषाः नेत्वार्णय वृत्रहामवेदये इन्द्रम् वयम् महाथे इन्द्रमर्भे हवामहे इयम् वृत्रेभवज्रिणम् विरायत्रान्तवः र्पयेदताश्वयम् अग्रे भिक्षुप्रदेष्कम् सहवगम् हवामहे अगम्भोपजगम् सुगुदन्ते व्यञ्जनम् अज्ञम् मित्रम् मरुणम् सातये भगम् इन्द्रानस्ताकम् सूर्यमृदम् गातुमज्ञम् वृङ्गारागमरुद्वान् स्वर्भज्यो जलभयज्ञस्वस्थेवादिहोन्दा आनो विश्वाभिरोचिभिः सजोजाः ब्रह्मजुषाना हर्यश्व हि वरे वचःप्रा वे अस्मेत सद्भिषणं सुष्म्र इन्द्रायगावासिनम् पुरुक्वे वज्रहे मधो यत्से मुखः परे विगज तास्ते वज्रन्थे नभो योजयन्नः नभस्तयो लितो इमाम् तेभ्यस्तोत्रेण ते प्राणे तमुत्सवे च प्रसवे च सासहिम् इन्द्रम् देवादश्रमधन्न